नारदपुराणं पूर्वार्थम् अध्यायं 43 त्रि भरद्वाज उवाच यदि प्राणपतिर्वायुर्वायुरेव विचेष्टते स्वसित्या भाष्यते चैव तदो जीवो निरर्थकः य ऊष्मभाव आग्नेयो वह्निनैवोपलभ्यते अग्निर्जरयते चैदत्तदाजीवो निरर्थकः जन्दो प्रम्णीयमाणस्य जीवो नैवोपलभ्यते वायुरेव जहात्येन मूष्मभावश्च यदि वाधुमयो मयो संश्लेषो यदि वायुना वायुमं जलव पश्येद्गच्छेत् सहमरुद्गुणैः संश्लेषो यदि वा तेन यदि तस्मात् प्रणश्यति महार्णव विमुक्तत्वादन्यत्सलिलभाजनम् कृपे वा सलिलं दद्यात् प्रदीपं वा हुताशने क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा पञ्चधारणके ह्यस्मिं शरीरे जीवितम् कृतं येषामन्यतराभावाञ्चतुर्नां नास्ति संशयः नश्यन्त्यापोह्यनाहाराद्वायुरुच्वा स निग्रहाद् नश्यदे कोष्ठभेदार्थमग्निर्नश्यत्यभोजनादव्याधितृणपरिक्लेशैर्मेदिनी चैव शीर्यदे पीडितेऽन्यदरे ह्येषां सङ्खादो यादि पञ्चतां तस्मिन् पञ्चत्वमापन्ने जीवः किम् खेदयदि वा जीवः किं शृणोदि ब्रवीति च एषा गौः परलोकस्तं तारयिष्यति मामिति यो दत्वा म्रियते गौश्च प्रदिग्रहीता दाता चैव समं यदा इहैव विलयं यान्ति कुतस्तेषां समागमः विहगैरुबभुकृस्य शैलाग्रात्पतितस्य च अग्निना चोपयुक्तस्य कुतः सञ्जीवनं पुनः खिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति जीवन्यस्य प्रवर्तन्ते मृदक्व पुनरेष्यति जीवमात्रम् पुरा सृष्टं यदेतत्परिवर्तते मृताः प्रणश्यन्ति बीजाद्बीजं प्रणश्यति इति मे संशयो ब्रह्मन्हृदये परिधावती तनिवर्तय सर्वज्ञ यदस्त्वामाश्रितो ह्यहं सनन्दन उवाच एवं पृष्टस्तदानेन स भृगुर्ब्रह्मणः सुदः पुनराहुमुनिश्रेष्ठ तत्सन्देहनिवृत्तये ब्रगुरुवाचा न प्राणासन्धिजीवस्य दत्तस्य च कृतस्य च यादिदेहान्तरं प्राणी शरीरं तु विशीर्यते न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यदि समेधामग्निदग्धानां यथाग्रेर्दश्यते तथा भरद्वाच उवाच अग्नेर्यथा तस्य नाशात्तद्विनाशो न विद्यते इन्धनस्योपयोगान्ते सवाग्नेर्नोपलभ्यते नश्यतीत्येव जानामि शान्दमग्निमनिन्धनं गदिर्यस्य प्रमाणं वा संस्थानं वा विद्यते भृगुरुवाच समिधामुपयोगान्ते स चाग्निर्नोपलभ्यते नश्यतीत्येव जानामि शान्दमग्निमनिन्धनम् गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते समिधामुपयोगान्ते यथाग्निर्नोपलभ्यते आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः तथा शरीरसंत्यागे जीवो जीवोह्याकाशवत्स्थितः न नश्यदे सुसूक्ष्मत्वाद्यधाज्योतिर्न संशयः प्राणान् धारयदे ह्यग्निः स जीव उपधार्यतां वायुसं धारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् तस्मिन्नष्टे शरीराग्नौ तदो देकमचेतनं पतितं यादि भूमित्वमयनं तस्य हिक्षिति हि जगमानं हि सर्वेषां स्थावराणां तथैव आकाशं पवनोऽन्वेदिज्योदिष्टमनुगच्छति तेषां त्रयाणामेकत्वाद्वयम् भूमौ प्रतिष्ठितं यत्र कम् तत्र पवनस्तत्राग्निर्यत्र मारुदः अमूर्तयस्ते विज्ञेया मूर्तिमन्दः शरीरिणः भरद्वाज उवाच यद्यग्निमारुतौ भूमिः कमापश्च शरीरिषु जीवः किं लक्षणस्तत्रेत्येददाचक्षवमेनख पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंज्ञके पंचा शरीरे प्राणिनां जीवं वेतुभिच्छामि यादृशम् मांसशोनिदसंकादे मेधस्नायु अस्ति सञ्चये विद्यमाने शरीरे तु जीवो नैवोपलभ्यते शरीरं तु पञ्चभूतसमन्विधं शरीरे मानसे दुःखकष्टं वेद यदे शृणोति कथितं जीवकर्णाभ्यां न शृणोति तद महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः सर्वे पश्यन्ति यदृश्यं मनो युक्देन चक्षुषा मनसि व्याकुले चक्षुः पश्यन्नपि न न पश्यति न चाक्रादि न शृणोदि न भाषते न च स्मर्शमसौ वेत्ति निद्रावशगतः पुनः हृष्यदि क्रुध्यदे कोत्र शोचत्युद्विजते चकः इच्छि ध्यायधि द्वेष्टि वाक्यं वाचयते चकः भृगुरुवाच तं पञ्च साधारणमत्र किञ्चिच्छरीरमेको वहदेन्दरात्मा स वेत्ति गन्धांश्च रसाञ्च्युदीश्च स्पर्शं च पञ्चात्मके पञ्च गुणप्रदर्शी स सर्वगात्रानुगतोऽन्तरात्मा स वेदि दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्तिदेहम् यदा नरूपं न स्पर्शो शरीराग्नौ देहत्यागेन नश्यति हपोमयमिदं सर्वमापो मूर्तिशरीरिणां तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत आत्मानं तं विजानीहि सर्वलोकहितात्मकम् तस्मिन्नः संश्रुतो देहे ह्यबिन्दुरिव पुष्करे क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकं तमोरजश्च सत्त्वं विद्धि जीवगुणानि अचेतनं जीवगुणं वदन्ति स चेष्टदे चेष्टयते च सर्वम् अधः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त न जीवनाशोऽस्ति देहभेदे मिथ्यैस्तदाहुर्मुन इत्यबुद्धाः जीवस्तु देहान्तरिदः प्रयाति दशार्धतस्तस्य शरीरभेदः येवं भूदेशु सर्वेषु गूढश्चरदि सर्वदा दृश्यते त्वग्र्या बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः तम्पूर्वापररात्रेषु युञ्जानः सततं बुधः हा। लब्धाहारो विशुद्धात्मा पश्यत्यत्मानमात्मनि चित्तस्य हि हित्वा कर्म शुभाशुभं प्रसन्नात्मात्मनि स्थित्वा सुखमानन्द्यमश्नुते मानसोऽग्निशरीरेषु जीव इत्यभिधीयते सृष्टिप्रजापदेशाध्यात्मविनिश्चये असृजब्राक्मणानेव पूर्वं ब्रह्मा प्रजापदिः आत्मतेजोभिनिर्वृत्तान् भास्कराग्निशमप्रभान् तदसत्यं च धर्मं च तथा ब्रह्म च शाश्वतम् आचार्यं चैव शौचं च स्वर्गाय विदद्धे प्रभुः देवदानवगन्धर्वादैत्यासुरमहोरगाः यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ब्राह्मणाः क्षत्रिया वैश्याः शूद्राणामसितस्तथा भरद्वाज उवाच चादुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते स्वेदमूत्रपुरीषाणि श्वेष्मा पित्तसोणितं त्वन्दक्षरदि सर्वेषां कस्माद्वर्णो विभज्यते जङ्गमानामसङ्ख्येयाः स्थावराणाञ्जजादयः तेषां विविधवर्णानां कुतो वर्णविनिश्चयः भृगुरुवाच न वर्णानां सर्वं ब्रह्ममयं जगद ब्रह्मणा पूर्वसृष्टं हि कर्मणा वर्णदां गतं कामभोगाप्रियास्तीक्ष्णाः क्रोधताप्रियसाहसाः त्यक्तस्वकर्मरक्ताङ्गास्ते द्विजाः क्षत्रदां गदाः गोभ्यो वृत्तिं समास्थाय पीधा कृष्युपजीविनः स्वधर्मन्नानुतिष्ठन्ति ते द्विजा वैश्यदां गदाः हि सा नृपरालुब्धाः सर्व कर्मोपजीविनः कृष्णा शौच पारिभ्राष्टास्ते द्विजा शूद्रतां गताः इत्येतैः कर्मभिर्व्याप्ता द्विजा वर्णान्तरं गदाः ब्राह्मणा धर्मतन्ध्रस्तास्तपस्तेषां नश्यति ब्रह्मधारयदां नित्यं व्रतानि नियमांस्तथा ब्रह्म चैव पुरा सृष्टं येन जानन्ति तद्विदः तेषां बहुविधास्त्वन्यास्तत्र तत्र द्विजातयः पिशाचाराक्षसाः प्रेधा विविधा म्लेच्छजादयः सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणाः भरद्वाज उवाच ब्राह्मणकेन भवति क्षत्रियो वा द्विजोत्तमवैश्यशूद्रश्च विप्रर्शे तद्ब्रूहि वदतां वर भृगुरुवाच जाद जादकर्मादिभिर्यस्तु संस्कारैः संस्कृतशुचिः वेदाध्ययनसम्पन्नो ब्रह्म कर्मस्वस्थितः शौचाचारस्थितः सम्यग्विद्याभ्यासी गुरुप्रियः नित्यव्रती सत्यपरस्वैब्राह्मण उच्यते सत्यं दानमधोद्रोह आनृशंस्यं कृपाकृणां तपस्यां दृश्यते यत्र सब्राह्मण इति स्मृतः क्षत्रजंसेव कर्म वेदाध्ययनसङ्गदः दानादानरधिर्यस्तु स वै क्षत्रिय उच्यते विशत्याशु पशुभ्यश्च कृष्या दानरतिशुचिः वेदाध्ययनसम्पन्नः स वैश्य इति संस्निधः सर्वभक्षरतिर्नित्यं सर्वकर्म शूद्रे चैदद्भवेल्लक्ष्मद्विजे तच्च न विद्यते न वै शूद्रो भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः यदत्पवित्रं ज्ञानानाम् तथा चैवात्मसंयमः वर्ज्यौ सर्वात्मना तौ हि श्रेयो खादार्थमुद्यतौ नित्यक्रोधाश्रियं रक्षेत्तपो रक्षेत्तु मत्सराद विद्यां मानापमानाभ्यामात्मानं तु प्रमाददः यस्य सर्वे समारम्भा निराशीर्बन्धनाद्विज त्यागे यस्य हुदं सर्वं सत्यागी स च बुद्धिमान् अहिंस्त्रः सर्वभूतानां मैत्रायणगदश्चरेद परिग्रहात्परित्यज्य भवेद्बद्ध्याजिदेन्द्रियः अशोकस्तानमादि अशोकस्थानमादिवेदिह च तपो नित्येन दान्तेन मुनिना सं यदात्मना सं यदात्मना अजितं जेदुकामेन व्यासङ्गे शुह्यसङ्गिना इन्द्रियैर्गृह्यदे यद्य तद्वद्व्यक्रमिधिष्ठितिः अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमदीन्द्रियम् अविश्रम्भेण मन्तव्यं विश्रम्भे धारयेन्मनः मनप्राणेन गृह्णीयात् प्राणं ब्रह्मणि धारयेद् निवेदादेव निर्वाणम् न च किञ्चिद्विचिन्तयेद सुखं वै ब्रह्मणो ब्रह्म निर्वेदेनाधिगच्छति शौचे दुःसततं युक्तः सदाचारसमन्वितः स्वनुक्रोशश्च भूतेषु तद्विजादिषु लक्षणं सत्यं व्रतं तपःशौचम् सत्यं विसृजते प्रजाः सत्येन धार्यते लोकस्वसत्येनैव गच्छति अनृतं तमसोरूपं तमसा नीयदेह्यथः तमोग्रस्ता न प्राकाश्यं तम सावृताः सुदुष्प्रकाश इत्याहुर्नरकं तम एव च सत्यानृतं तदुभयं प्राप्यते जगदीचरैः तत्राप्येवं विधालोके वृत्तिः सत्यानृते भवेद् धर्माधर्मौ प्रकाशश्च तमो दुःखसुखं तथा शारीरैर्मनसैर्दुःखैः सुखैश्चाप्य सुखोदयैः लोकसृष्टं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः तत्र दुःखविमोक्षार्थं प्रयतेदविचक्षणः सुखं ह्यनित्यं भूतानामिह लोके परत्र च राहुग्रस्तस्य सोमस्य यद्धा ज्योत्स्नान भासते तथा तमोभिभूतानां भूतानां नश्यते सुखं तत् खलु द्विविधं सुखमुच्य शरीरं मानसं च इह खल्वमुष्मिंश्च लोगे वस्तुप्रवृत्तयः सुखार्थमभिधीयन्ते न हि तपरत्रापवर्गफलाद्विशिष्टतरमस्ति स एव काम्यो गुणविशेषो धर्मार्थगुणारम्भगस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थमारम्भाः भरद्वाज उवाच वदैतद्भवताभिहितं सुखानां परमास्थितिरिधि न तदुपगृह्णीमो न ह्येषा मृषीणां महदिस्थिदानाम् अप्राप्य एष चयनमभिशीलयन्ति तपसि श्रूयते त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति ब्रह्मचारी न कामसुखो स्वात्मानमवधावदी अवदधाति अपि च भगवान् विश्वेश्वर उमापदि काममभिवर्तमानमनङ्गत्वेन सममनयत् तस्माद्भूमौ नदु महात्मभिरं जयदि गृहीतो नत्वे शवद्विजिष्ठो गुणविशेष इति नैदभवद् प्रत्यमि भवदा तूक्तम् सुखानां परमास्त्रिया इति लोकप्रवादो हि द्विविधः बलोदयः सुकृतात्सुखमवाप्यदेन्यता दुःखमिति भृगुरुवाच अत्रोच्यते अनृतात् खलु तमःप्रादुर्भूतं ततस्तमोऽग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मं क्रोध लोभमोह हिंसा नृतादिभिश्चान्नाः खल्वस्मिन् लोकेनामुद्र सुखमाप्नुवन्ति विविधव्याधिरुजोपतापैरवकीर्यन्ते वधबन्धन परिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते वर्षवादात्युष्णादिशिधकृतैश्च प्रतिभयै शारीरैर्दुखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः कैरभि शौकैरभिभूयन्ते जरा मृत्युकृदैश्चान्यैरिति यस्त्वेतैः शारीरं मानसं नास्ति न जरा न च पातकं नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयं नरके दुःखमेवाहुः सुखम् तत्परमं पदं पृथिवी सर्वभूतानां जनित्री तद्विद्धा स्त्रियः पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः इत्येतल्लोकनिर्मादा धर्मस्य चरितस्य च तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च उदेना शाम्यदे पापं स्वाध्याये शान्तिरुत्तमा दानेन भोगानित्याहुस्तपःसा स्वर्गमाप्नुयाद दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च सद्भ्यो यदीयते किञ्चित्तत्परत्रोपतिष्ठते असभ्यो दीयते यत्तु तद्दानमिह भुज्यते यादृश्यं दीयते दानं तादृशं फलमश्नुदे भरद्वाच उवाच किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणं धर्मकधिविधो वापि तत् भवान् वक्तुमर्हति भृगुरुवाच स्वधर्माचरणे युक्ता ये भवन्ति मनीषिणः तेषां स्वर्गपलावातिर्योन्यथा स विमुह्यते भरद्वाज उवाच यदेतञ्चादुराश्रम्यं ब्रह्मर्षिविहिदं पुरा तेषां स्वे, स्वे समाचारास्तन्मेव क्रुमिहार्हसि भृगुरुच पूर्वमेव भगवदा ब्रह्मणा लोकहितमनुतिष्ठदा धर्मसंरक्षणार्थमाश्रमाश्चत्वारोभिनिर्दिष्टाः तत्र गुरुकुलवासमेव प्रथममाश्रम माहरन्ति सम्यगत्र शौचसंस्कारनियमव्रत विनियतात्मा उभे सन्ध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तद्ध्यालस्यं गुरोरभिवादनवेदाभ्यास श्रवणपवित्रकी कृतान्तरात्मा तृशवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरण गुरुशुश्रूषा नित्यभिक्षा भैक्ष्यादि सर्वनिवेदितान्तरात्मा गुरुवचन निदेशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्याय तत्परः स्याद भवति चात्रश्लोकः गुरुं यस्तु समाराध्य द्विजो वेदमावान्भुयाद तस्य स्वर्गफलावाप्ति सिध्यदे चास्यमानसम् इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति तस्य सदाचारलक्षणं सर्वमनुव्याख्यास्यामः समावृतानां सदाचाराणां सह धर्मचर्यफलार्थिनां गृहाश्रमो विधीयते धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्ग साधनमपेक्ष्या गर्षितकर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा ब्रह्मर्षि निर्मितेन वा अद्भिस्सागरगतेन वा द्रव्यनियमाभ्यासदैवदप्रसादोपलब्धेन धनेन गृहस्थो गार्हस्थ्यं वर्तयेद तद्धि सर्वाश्रमणान् मूलमुदाहरन्ति गुरुकुलनिवासिनः परिव्राजका येने सङ्कल्पितव्रदनियमधर्मानुष्ठानि नस्तेषामप्यन्तराज संविभागाः प्रवर्तन्ते वानप्रस्थानं च द्रव्योपस्कार इति प्रायश्च खल्वेदे गमनदेश दर्शनार्थं पृथिवीं पर्यटन्ति तेषां प्रत्युत्थानाभिगमनमनसूयावाक्यदानसुखसत्कारासनसुखशयनाभ्यवहारसत्क्रिया चेदि भवति चात्रश्लोकः अधिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते स तत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति अपि चात्र यज्ञक्रियाभिर्देवता प्रीयन्ते निवापेन पितरो विद्याभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापदिरिति लोकौ चात्र भवदः वात्सल्याः सर्वभूतेभ्यो वायो श्रोत्रस्तथा गिरा परितापोदपकादश्च पारुष्यं चात्र गर्हितम् अवज्ञानमहङ्कारो दम्भश्चैव विगर्हितः अहिंसा सत्यमक्रोधं सर्वाश्रमगदं तपः अभिमाल्या भरणवस्त्राभ्यङ्गनित्योपभोगनृत्यगीतवादित्रश्रुतिसुखनयनस्नेहरामादर्शनानां प्राप्तिर्भक्ष्य भोज्य लेह्यपेय चोष्याणामभ्य वहार्याणाम् विविधानामुपभोगः स्वविहारसन्तोषकामसुखावाप्तिरिति त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यम् गृहाश्रमे स सुकान्यनुभूयेह शिष्टानाम् गतिमाप्नुयाद गदिमाप्नुयाद यः स्वधर्मचरणे त्यक्तकामसुखारम्भस्वर्गस्तस्य न दुर्लभः कल्वभिधर्ममनु वानप्रस्थाः कल्वभिधर्ममनुसरन्दःपुण्यानि तीर्थानि नदीप्रस्रवणानि स्वभाेषु मृग वराहमहिषशार्दूलवनगजाकीर्णेषु तपस्यन्ते अनुसञ्चरन्ती त्यक्तग्राम्यवस्त्राभ्यपहारोपभोगा परिमिद विचित्र नियदाहाराः स्थानास निनो भस्म चर्म शिकदाशर्करा वालुकाभस्मशायिनः काशकुशचर्मवल्कलसमृताङ्गाः केशस्यश्रुनखरोमधारिणो नियतकालोपस्पर्शनाः शुष्कबलिहोमकालानुष्ठायिनः समित् कुश कुसुमापहारसम्मार्जनलब्धविश्रमाः शीतोष्णपवनिष्ठं शीतोष्णपवनविष्ठं भवि भिन्न सर्वत्वजो विविधनियमयोगचर्यानुष्ठानविहितपरिशुष्कमांसशोणितत्वगस्ति भूता धृतिपराः सत्त्वयोगाचरीराण्युद्वहन्ध्ये यस्त्वेदां नियतचर्यां ब्रह्मर्षिविहितां चरेद स दहेदग्निवदोषां जयेल्लोकांश्च दुर्जयन् परिव्राजकानां पुनराचारः तद्यथा विमुच्याग्निं धनकलत्र परिबर्ह सङ्गेष्वात्मानं स्नेह पाशानवधूय परिव्रजन्ति समलोष्टाश्म अरिमित्रो अरिमित्रोदासीनां तुल्यदर्शनाः तावरजरायुजाण्डजस्वेदजानां भुधानां वाङ्मनकर्मभिरनभिरनभिद्रोहिणो भी निखेदाः पर्वतबुलिनवृक्षमूलदेवायत नान्यनु संचरन्दो वा सार्धमुपेयुर्नगरं ग्रामं वानक्रोध र्पलो भमोहकार्पण्यदम्भपरिवादाभिमाननिर्वृत्तहिंस इति भवन्ति छात्रश्लोकाः अभयं सर्वभूतेभ्यो दत्त्वा यश्चरदे मुनिः न तस्य सर्वभूतेभ्यो भयमुत्पद्यदे क्वचिद कृत्वाग्निहोत्रं स्वशरीरसंष्ठं शरीरमग्निं स्वमुखे जुहोति विप्रस्तु भाैक्ष्योपगतैर्हविर्भिश्चिदग्निना सं व्रजदे हि सोकान् मोक्षाश्रमं यश्चरदे यथोक्तं शुचिस्वसङ्कल्पितयुक्तबुद्धिः अनिन्दनं ज्योतिरिव प्रशान्तं सब्रह्मलोकं श्रयदे द्विजादिः इति श्रीब्रह्म नारदीयपुराणे इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे ब्राणाचारूप नाम चोध्याय